अथर्वेदे तृतीयाष्टके द्वितीयोऽध्यायः ओच्छन्ति त्वा सोम्या सः सखायः सुन्वन्ति सो नन्द्रदति प्रयांसि त्रिदिक्षन्ते अभिषस्तिञ्जनाः नामिन्व्रत्वदा कश्चन हि प्रकेतः न दूरे परमाचिद्रजाम् स्यातु प्रजा हि स्थिराजकृष्णे समना कृते मा युक्ताग्रावाणः समिधाने अग्नौ इन्द्रः सुशिप्रो ओमघवातरुत्रो महाव्रातस्तु वि कूर्मिरघा आवान् यदुग्रोधा आधिजो मर्त्ये एवा अर्त्याते त्वम् ह्रीष्माच्यापयन्नच्युतान्येको मद्यावा पृथिवीपर्वतासोऽनु व्रताय निमितेवतस्थुः उता उताभये पुरुहुतश्रवोः फिरेको दृढमपदो वृत्रहासन् इमे इमेचि रोदसी अपारे यत्सङ्ग्रभ्णामघवन् काशिरित्तेः प्रसूत इन्द्रप्रवता हरिभ्याम् रते वज्रः प्रमृणन्नेः तु जहि प्रतीचो अनूजः परा चो, चो विश्वम् सत्यम् कृणुहि विष्टमस्तु यस्मै धायुरथा मर्त्या भक्तम् चिद्भजते गेह्या भद्रात इन्द्रसुमतिर्घृताजी सहस्रदाना पुरुहोतरातिः सह दानुम् पुरुहोत क्षयन्तमहस्तमिन्द्रसम्पिणः अभिवृत्रम् वर्धमालम्बियारुमपादमिन्द्र तपसाः जघन्थ निसा आमनामि शिरामिन्द्रम् रभूमिम् महेमपाराम् सदने सत्था अस्तद्भ्नाद्याम् वृषभो अन्तरिक्षमलिषन्तापस्पदेहप्रसूताः अलातृणो बल इन्द्रव्रजोगोः पुराहन्तोर्भयमानो व्याहार सुगान्पथो अरुणान्विरदेकाः प्राबन्वाणीः पुरुहूतम् धमन्तेः एको एकोद्वे वसुमती समीची इन्द्र आपप्रथिवीमुतद्याम् उतान्तरिक्षादभिनः समेक किशोरथे सयुज शूरवाजान् दिश सूर्यो न मिनातिप्रदिष्टा दिवे दिवे हर्यश्वप्रसूताः सै यदा नळर्ध्वन आदिरश्वैर्विमोचनम् कृणुते तत्त्वस्य द्विदक्षन्त उषसो जानन्नक्तोर्विवस्वत्यामहि चित्रमणिकम् विश्वे एजानन्तिमहिना यदा गादिन्द्रस्य कर्म सुकृता पुरोणे महिज्योतिर्निहितम् भक्षणाः स्वामापक्वम् जरति बिभ्रती गौः विश्वम् स्वात्मसम्भृतमुस्त्रियान्यत्सेमिन्द्रो अर्थाद्भोजनाय इन्द्रदर्ह्ययामकोषा अभूवन् यज्ञाय शिक्ष गुणते सखिभ्यः दुर्मायवोः दुरेपावर्त्याः सोऽषङ्गिणोः रिपवो हन्ताः सह आकेपदः स ललोकम् चकर्थब्रह्मद्भिषेतपुषिम् हेतिमस्य स्वस्तये एवादिभिश्च प्रणेतः सञ्जन्महीरिष आसत्सि ऊर्व इव वप्रते कामोः अस्मेतमा प्रणवसुपते वसूना इमम् कामम् मन्दया गोभिरश्वैश्चन्द्रवताराधसा वप्रतश्च स्वर्यवो मृदिभिस्तुभ्यम् विप्रा इन्द्राः जपाहः कुशिकासो अक्रन् आनो गोत्रादृहि गोपतेगास्रमस्मभ्यम् सनयो यन्तु वाजाः विवक्षा असि वृषभसत्यशुष्मोऽस्मभ्यम् सुमघवन् बोधिगोदाः शुनम्भुवेमघवानमिन्द्रमस्मिन्भरे धृतमम्बाजसातौ शृण्वन्तमुग्रभूतये समत्सुघ्नन्तम् वृत्राणि सञ्जितम् धनानाम् सा सद्बन्धिर्द्विहितुर्नत्यङ्गाद्विद्वाङ्कृतस्य दीधितिम् सपर्यन् पिता यत्र तु हितुः सेकमृञ्जन्संशज्ञे न मनसा दधन्वे न जामयेतान्वो रिक्थमारैचकारगर्भम् स ऋतुर्निधानम् यदि एमातरो महान् गर्भो मह्या जातमे एषा महे प्रवृद्धर्यश्वस्य यज्ञैः अभिजैत्रे एरसचन्तस्पृधानम् महि ज्योतिस्तमसो निरजानन् कञ्जा आनतेः प्रत्युदा आजन्नुषा सः पतिर्गवा आमभवदे कलीन्द्राः विश्वामविन्दन् पथ्या अमृतस्य प्रदानम् नित्ता नमसापिश विदद्यते सरमा रुग्णमध्रैर्म हि बाधः पूर्व्यम् सध्यक्तः अग्रम् सुप्रध्यक्षरामच्छारवम् पथमाजाहतीगात् अगच्छतु विप्रथमस्वखीयन्मसोदयत्सुकृते गर्भमध्रीः ससा नुमभिर्मखस्यन्नथाः भवदङ्गिराः सद्यो अर्चन् ततः सतः प्रतिमानम् पुरो भोर्विश्वा आवेदति निमाहन्ति सुष्णम् प्रणादिलः पलवीर्ग्युरर्चन् सखा सखे इमुन्निरमद्यात् भोर्ये एषा ये, ये न सम्पश्यमाना अमदन्नभिस्वम् वयः प्रत्नस्य रेतसो दुघानाः विरोदसी अत बोष एषातेर्घोषु वीरान् स जाते हव्यैरुदुश्रियाः सृजदिन्द्रो अर्कैः रोच्यस्मै कृतवद्भरन् दे मधुस्वाद्मधुदुहेऽन्यागौः पित्रे चिच्चक्रुःसदनम् समस्मै महिषे एवत् सुकृतोऽभिहिक्षन् विश्वभ्रन्तस्कम्भनेन जनित्रे आसेना ऊर्ध्वम् रथसं विमिन्वन् महे यलिना शिष्णेधात्सद्यो वृथम् विद्वादस्योः गिरो यस्मिन्ननभद्याः समेचेर्विश्वा इन्द्रायतु विषीर्नुक्ताः मह्याते सख्यम् वश्मि शक्तेरावृत्रघ्ने नियुतो यन्ति पूर्वेः महि स्तोत्रमलागन्नैरस्माकम् सुमघवन् बोधि गोपाः महिक्षेत्रम् पुरश्चन्द्रम् विद्वानादित्सखिभ्यश्च रथम् समैः रत इन्द्रो नृभिरजनद्दीद्याः नः साकम् सूर्यमुष विभो ओदमो तु नानाः कविभिः पवित्रैर्दुभिर्हिन्वन् चक्तुभिर्धनुत्रेः अनुकृष्णे वसुधिते जिहाते उभे सूर्यस्य ब्रह्मनाय चत्रे पर्यत्ते ए महिमानम् रजध्ये सखा आज इन्द्रकाम्या आरजिताः परिर्भवर्द्रहं सोनृतानाम् गिराम् विश्वायुर्वृसर्वोपयोधाः आ नो बहि सख्येभिः शिवेभिर्महान्महेभिरोधिभिः सरण्यन्न तमङ्गिरस्वन्नमसा स पर्यन्नव्यम् कृणोभि सन्न्यसे द्रुहो विहुला मघवन् सातये धाः विहः पावकाः प्रतता अभूवन् स्वस्ति अदेदिष्टरुत्रः गोपतिर्गा अन्तः कृष्णाङ्गरुषैर्धामभिर्गात् प्रसूदृताः दिशमान हृतेन दुरश्च विश्वाः अवृणोदपस्वाः सुरम्भवेमघवाः नरिन्द्रमस्मिन्भरे नृतमम्बाजसातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्जितन्धनानाम् इन्द्रसोमम् सोमपते भेमम् माध्यम् विनम् सवनम् चारुयत्ते प्रकृथ्या शिप्रे मघवम् नृजेषिन् विपुच्या हरिः इह महादयस्व गवा आशिलम् मन्थिरमिन्द्रशुक्रम् बिपा सोमम् ब्रह्मकृता मारुतेन गणेन सजोषा आरुद्रैस्तृपदा वृषस्व ये तेषु स्मय्येतपि शीमवर्धन्नर्चन्द इन्द्रमरुतस्तवोजाः भ्यन्दिने सवने वज्रहस्तपिबा रुद्रेभिः स्रगणः सुशिप्र त इन्द्वस्य मधुमद्विप्र इन्द्रस्य शर्धो मरुतो य आसन् येभिर्वे एषितो विवेदाः मर्मणो मन्यमानस्य मर्म मरुष्वदिन्द्रसनञ्जुषाणः पिबासो मंशश्व ते वीर्या आया स आपवृत्स्वहर्यश्व यज्ञैः सरण्युभिरपो अर्णा आसि सर्षैः तमपो यद्धवृत्रन्ति खन्वाङ्क्याङ्मप्रासृजः सर्तवाजौ शया आनमिन्द्रतरतावथेन भौरिवाम् सम्परि देवीरते एवम् यया आ वृद्धमिन्द्रम् बृहन्त वृष्पजरञुवा आनम् यस्य प्रिये मम तुरु यज्ञस्य नरोदसीमहिमानम् ममाते इन्द्रस्य कर्म सुकृता पुरोणि रतानि देवानमिनन्ति विश्वे धारयः पृथिवेन्द्यामुते मान्यजानसूर्यमुषसं सुसन्ताः अर्द्रोभ्य सत्यन्तवधन्महि त्वम् सद्यो यज्जातो अपि वो हसोमम् नद्याव इन्द्र तव सस्तव जोनाः नमासाः शररो वदन्त त्वम् सद्यो अपि भो जात इन्द्रमदायसोमम् परमे व्योमन् यद्धर्द्यावा आ पृथिवी आविवेशीरथा आभवः पूर्वः कारुधायाः अहम् नहिम् परिशया रमर्ण ओजायमा आनन्तु विजातव्याने न स्फिग्या आक्षामवस्थाः यज्ञोहित इन्द्रवर्धनो बोधुत प्रियः सुतसो यज्ञेन यज्ञमवयज्ञयः सन् यज्ञस्ते वज्रम हिहत्य आवत् यज्ञेनेन्द्रमवसाचक्रे अर्वागैनम् सुम्नायनव्यसेव वृत्त्या यस्तोमेःभिर्वावृथे पूर्वेभिर्यो मध्यमेभिरुतनूतनेभिः विवेशजन्नाः धिषणाः निजानस्तवैः पुरापार्यादिन्द्रमह्नाः अं ह सो यत्र पीपरद्यथा आ नो नावे भजान्तमुभजे हवन्ते आपूर्णो अस्य कलश स्वाहासेक्ते एव कोशम् सिसि चेऽपि बध्ये समुप्रिया आवृत्रर्मदा आयप्रदक्षिणितसोमास इन्द्रम् नत्वा आगभीरः पुरुहोतसिन्धुर्नाद्रजः परिषन्तो ओपरन्त इत्थासखिभ्यभिशिचो यदिन्द्रा दृढम् शुनम्भुवे ममघवानमिन्द्रमस्मिन्भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूदये समत्सुघ्नन्तम् वृत्राणि सञ्जितन्धनाम् प्रपर्वतानामुशते उपस्थादशे इव विशिते हासमाने ग्रामे एव शुभ्रे मातर आरिहाणे पिपाक्षुतुद्रीपयसा जवेते इन्द्रेशिते प्रसवम् भिक्षमाणे अच्छाः समुद्रम् रथ्ये समाराणे ऊर्मिभिः पिङ्गमाने अन्या वा आमन्यामप्येति शुभ्रे अर्चासिन्धुम् मारुतमाया संविम् सुभगा आमगन्म वत्समिव मातरा संवृहाणे समानन्यो निमनुसञ्चरन्ते येना वयम् वयसा पिङ्गमाना अनुयोनिन्दे सञ्चरन्तेः न वर्तवे प्रसवः सर्गतक्तः किञुर्विप्रोः नद्यो जोघवीति न मध्वम् मे वचसे सोम्या जरुतावरीरुपमुहूर्तमेवैः सुरच्छाबृहते मनीषा वस्यरःपे कुशिकस्य सूनुः इन्द्रो अस्माकरद्वज्रवाहुरपा अहम् नृत्रम् परिधिम् नदीनाम् आं। देवो नयत्सभितासु पाडिस्तस्य भयम् प्रसवेयामूर्वीः प्रवाच्यम् शश्वधा वीर्या अन्तरिन्दस्य कर्मजदहिम् विभज्रेण परिषदो जखानायन्नापोजनमिच्छमानाह एतद्वचो जरि कर्माभिमृष्ठा आयत्ते घोषानुत्तरा युगानि उक्थेषु कारो प्रतिनो जुरः समारो नमस्ते ओषुस्वसारः कारवे ए शृणोत भवता सु अधो अक्षासिन्धवः आते ते एकारोऽशवामापचा हंसि याथ दूरादनसारथे एना निते एनंसैपीप्यानेभजोषामर्याः एव कन्याः शश्वचैते एरङ्गत्वा भरताः सन्तरे ये दुर्गव्यम् ग्राम इषित इन्द्रजोतः अर्षादः प्रसवः सर्गदक्त आभो ओवृणे सुमती यज्ञयानाम् अता आरिषुर्भरता गम्यवः सुमति प्रभिन्वर्ध्वषयन् सुराधाः वक्षणाः प्रणध्वातशेभम् उर्द ऊर्मिः शम्याः हन्ता पोयोत्राणि मा दुष्कृतौ ये येन सा घ्यौषो नारदा इन्द्रः पूर्भिदातिरर्दासमर्कैर्विदर्दुर्दयमानोऽभिशत्रोर ब्रह्मजोतस्तन्वाः वावृधानो मखस्य तेतबिषस्य प्रज्योतिमियर्मिवाचमृता जभूषन् इन्द्रक्षितेनामसिमानुषीणाम् विषाम् दैवेहीनामुतपूर्वजावाह इन्द्रो ोजयन्मनवेकेतुमन्नामविन्दज्योतिर्बृहतेरणाय इन्द्रस्तुजो बर्हणाविवेश नृपद्दधा नोदर्याः पुरोणे अचेतदधिय इमाचरित्रे प्रेमम् वर्णमतिरच्छुक्रमासाम् महो महानिपनञ्जस्येन्द्रस्य कर्मसुकृता पुरोणे वृजने वृजिनान् संविपेषमायाभिोङ्ग्रभिभूत्योजाः युधेन्द्रो बह्नावरिवश्चकारदेवेभ्यः सत्पतिश्च ऋषणिप्राः इमस्वतः सदने अस्य ता निविप्राः उक्थेभिः कवयोः गृणन्ति सत्रासाहम्बरे सहोदां ससभां होदाम् स सभाम् संस्वरपश्च देवीः ससा हिरण्यजमुतभोगम् ससानात्ते तस्योन्ार्यम् वर्णमावत् इन्द्र ओषधीरसमोदहारि वनस्पते इङ्ग्लनोदन्तरिक्षम् विभेदपदम् नुदेविपाचोथाभिक्रतूराम् सुरम्भुवेमघवा नमिन्द्रमस्मिन्भरे कृतमम् वाचसाधु शृण्वन्तमुग्रमूतये समत्सुघ्रन्तम् वृत्प्राणि सञ्जितन्धनाहानाम् तिष्ठा हरेरथ आयुज्यमानाजाहि वायुर्ननियुतो नो अच्छा पिपास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा आरलिमा ते मदाहाय उपा आजिरा पुरुहोताजसप्ते हरेरथस्य धूर्ष्वायुनज्मे द्रवद्यथा संहृतम् विश्वतश्चिदुपेमम् यज्ञमावहात इन्द्रम् उपो ओनयस्व वृषणाथ मश्वा विमुचे हशोणाः दिवे दिवे सदृशीरद्धिधानाः ब्रह्मणा ते ब्रह्मजुजाजुनज्मिहरि सखायासधमाद आशु स्थिरम् रथम् सुखमिन्द्राधितिष्ठन् विद्वाङ् उपयाहि सोमम् माते हरे वृषणावीतपृष्ठा निरीरमञ्जमानासो अन्ये अत्याया आहि शश्वतो वयन्ते रम् सुतेभिः तपायम् सोमस्तवे शर्वाङ् शष्पत्तमम् सुमनाः अस्य पाहा हि अस्मिन् यज्ञे बर्हिष्या निषद्याः तधिष्वञ्जठर इन्दुमिन्द्र स्तीर्णन्ते बर्हि सुत इन्द्रसोमः कृता ततो ओपसे पुरुषाकायकृष्णे मरुत्वते तुभ्यम् राधा हवींषे इमन्नरः तस्यागत्या सुमना ऋष्टपाहि प्रजानन् विद्वान् पथ्या आ अनुस्वाह या आभयो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवम् गणस्ते तेऽभिरेतम् सजोषा आवावशानोग्नेः पिबजिह्वया सोममिन्द्र इन्द्र पिब स्वधया आचित्सुतस्याग्नेर्वा आ, आ पाहि जिह्वया अद्भर्योर्वा प्रयतम् शक्रहस्ताद्धोतुर्वा यज्ञम् हविशो जुषस्र शुरम्भुवेमघवानमिन्द्रमस्मिन्भरे घृतमम् वाजसातौ शृण्वन्तमुग्रमोतये समत्सुभन्तम् वृत्राणि सञ्जितम् धना इमा मूषु प्रभृतिम् सातये शश्वच्छश्वतोभिर्यातमानः सुते सुते वा वृथे इन्द्राय सोमाः प्रति गोपिदानारुभुर्येभिर्वृषपर्वाभिहायाः प्रयम्यमाहानान् प्रतिशोगृभाजेन्द्रपिब वृषधूतस्य कृष्णाः पिबावर्धः स्वतमघा सुता स इन्द्र सोमाः सः प्रथमा उदे यथापि बः पूर्या इन्द्र सोमा ये पापाहि पन्योः अद्यानवीयान् महाङ्गमत्रो वृजने एविरप्स्यू उग्रं शवः पत्यते धृष्णो जाः नाहविव्या च पृथिवीतनैन यत्सो मासौहर्यममन्दन् महाम् उग्रो वा आवृथे वीर्याय समाचक्रे वृषभः काव्ये इन्द्रो भगो वा यदा अस्य गावः प्रजा दक्षिणा अस्य पूर्वीः प्रयत्सिन्धवः प्रसमै यथा यन्नापः समुद्रम् अतश्च यदिन्द्रः सदसो वरीः यां यदीम् सोमः प्रणति दुग्धो अंशो समुद्रेण सिन्धवो जादमाना इन्द्रा आय सोमम् सुषुतम् हस्तिनो अभरित्रैरमध्वः धारया पवित्रैः त्रदा इव भुक्षयः सोमधानाः समे एमि च आतो भरमाखिले तत्परिष्ठाद् विद्माहि त्वा वसुपतिम् वसूनाम् इन्द्रयत्ते माहि नन्दत्रमस्त्यस्मभ्यम् तद्भरु यश्व प्रयन्धि अस्मे प्रयन्धिमघवन्द्रिजिषिन्निन्द्रराजो विश्ववाहरस्य भूरे एः अस्मे शतम् शरतो जीवसेधा अस्मे वीराञ्छत इन्द्रशिप्रिन् शुनम्भुवेमघवानीन्द्रमस्मिन्भरेन्द्रतमम् वाजसातु शृण्वन्तमुग्रमोदये समत्सुघ्नन्तम् वृत्राणि सञ्जितन्धनाम् वार्त्रहत्या यशमसे वृतनाशाह्याय च इन्द्रत्वा वर्तयामसि अर्वाचीनं सुते मन उत चक्षुषतक्रतो इन्द्रकृन्तु वाघताः नामा आनिते शतक्रतो विश्वाभिर्गीर्भिरीमहे इन्द्राभिमाजिषाह्येः पुरुष्कृतस्य धामभिषते न महयामसि इन्द्रस्य चर्षने धृताः इन्द्रम् वृत्राय हन्तवे पुरुहूतमुपब्रुवे भरेषु वाजसातये वाजेशु सा सहिर्भवत्पामेहे महेशतक्रतो इन्द्रवृत्राय हन्तवे द्युम्नेषु वृतराज्ये पृत्सुतोशुश्रवःस्वत इन्द्रसा क्ष्वाभिमाहादिषु सुष्मिन्तमन्न ऊतये द्युम्निनम् वाहितागृहिम् इन्द्रसोमम् शतक्रतो इन्द्रियाणि शतक्रतो याते जनेषु पञ्चसो इन्द्रतानि तावृणे अगण्यनिन्द्रश्रवो बृहद््युम् नन्द दुष्टरम् उक्ते सुष्मन्दिरामसि अर्वावतो न आगह्यथो चक्रपरावताः आगहि अभितष्टे पदीधयामनीषामत्यो न वाजी सुधुरोदिहा अभिप्रियाणि मर्मृषत्वराणि कवीच्छापि सन्दृशे सुमेधाः इनोदपृच्छतः सुकृतस्तक्षद्याम् इमा उते माता अथनु धर्मणिग्मन् निषीमिदत्र मुह्या तथा आना उत क्षत्रा आतिष्ठन्तम् परि विश्वे अभूषन्श्रियोऽपसा आनश्चरति स्वरो ओचिः महत्वद्वृष्णो असुरस्य नामा विश्वरो ओपो अमृता आनितस्थौ असू ओतपूर्वो ओषभो आनिमानस्य सुरुदः सन्ति दिवो ओनपादा विदथस्य देभिः क्षत्रम् रा आजाना प्रतिपो त्रीणिराजानाविदधे पुरोणि परिविश्वानि भूषथः सतांसि अपश्यमत्र मनसा जखन्वान् रते गन्धर्वाङ्जुकेशान् तदिन्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सम्यङ्गोः अन्यदन्यसूर्याम्बसामाजिनो ममिरे रूपमस्मिन् तदिन्वस्य सभितर्न किर्मेरण्ये मम धियामशिश्वेत् आसुष्टुतीरोदसे विश्वमिन्वे अपि हि पयोजोषाजनिमानि वं रे युवम् रत्नस्य साधथो महो यद्रैवीः स्वस्तिः परिणः स्यातम् गोपादिह्स्य तस्थुषोभिरोपाविश्वे पश्यन्ति भाजिनः कृतानि शनम्भुवेमघवानमिन्द्रमस्मिन्भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूतजे समत्सुग्धन्तम् इन्द्रम् मतिर्हृदावृच्यमानाच्छापत्रिं स्तोमतष्टादिगादि या जाग्रविर्विदथे एषस्यमानेन्द्रयते जायते विद्धि तस्य इमश्चिदा पूर्व्या जायमाना विजाग्रविर्विदथे एषस्यमाना भद्रावस्राण्यर्जुनावसा आनासे यमस्मे स न जाभिख्याथे यमाचिदत्र यमसूरसूतजिह्वा वपोंसि जाता मिथुना सचेचेतमोहनाथपुषो बुद्ध एता नखिरेषान्निन्वितामर्त्येशु ये अस्माकम् वितरोगोषु योधाः इन्द्र एषान्द्रम्भितामाहिनाभारुद्गोत्राणि ससृजेतम् सनावान् सखा आह यत्र सखिभिर्नवग्वैरभिग्मा सत्त्वभिर्गा अनुग्मन् सत्यम् तदिन्द्रो दशभिर्दशग् वैः सूर्यम् विवेद तमशिक्षयन्तम् इन्द्रो मधुसंहृतमुश्रिया आयाम् पद्वद्विवेदसफपह्नवेगोः गुहा आहितम् गुह्यम् गूढमप्सुहस्ते एतथे दक्षिणे दक्षिणावान ज्योतिर्वृणीतततमसोऽपि जानन्नारे स्याः मधुरितादभीके इमा गिरः सोमपाः सोमवृद्धजुषस्वे भूरिचिद्धितु यतो मर्त्यस्य सुपारासो वसवो बर्हणा शुनम् हुवेमघवारविन्द्रमस्मिन्भरे नृतमम् वाजसातौ शृण्वन्तमुग्रभूतये समत्सुघ्नन्तम् वृत्राणि सञ्जितन्धनानाम् इति तृतीयाष्टके द्वितीयोऽध्यायः